अथ त्रयोदशोऽध्यायः वैशम्पायनुवाच ऋषेस्तद्वचनम् श्रुत्वा निशश्वास युधिष्ठिरः चिन्तयन् राजर्षीणां च तं श्रुत्वा महिमानं महात्मनां यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः युधिष्ठिरस्ततः सर्वान् अर्चयित्वा सभासदः प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे स राजेन्द्र कुरुणा मृषभस्तदा आहर्तुं प्रवणं चक्रे मनःसञ्चिन्त्य चासकृत् भूयश्चाद्भुतवीर्यौ जा धर्ममेवानुचिन्तयन् किं हितम् सर्वलोकानाम् भवेदिति मनोदधे अनुगृह्णन् प्रजाः सर्वाः वरः अविशेषेण सर्वेषाम् हितञ्चक्रे युधिष्ठिरः